ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं ट्वेन्टिसिक्स् भण्डपुत्रवधम् प्रथमयुद्धदिवसः दशाक्षौहिणिकायुक्तकुडिलाक्षोऽपि वीर्यवान् दण्डनाधा शरैस्तीक्ष्णैरणे भग्नः पलायितः दशाक्षौहिणिकं सैन्यं तया रात्रौ विनाशितम् इमं वृत्तान्तमाकर्ण्य भण्डः क्षोभमधाययौ रात्रौ कपटसङ्ग्रामं दुष्टानां निर्जरद्रुहाम् मन्दिणी दण्डनाथा च श्रुत्वा निर्वेदमापतुः अहो बद महत्कष्टं दैत्यैर्देव्याः समागतम् उत्थानबुद्धिभिर्दूरमस्माभिश्चलितं पुरः महाचक्ररधेन्द्रस्य न जादं रक्षणं बलैः त्ववसरं प्राप्य रात्रौ दुष्टैः पराकृतं को वृत्तान्द्रो भवत्तत्र स्वामिन्या किं रणः कृतः अन्या वा शक्तयस्तत्र चक्रुर्युद्धं महासुरैः विम्रष्टव्यमिदं कार्यम् प्रवृत्तिस्तत्र कीदृशी महादेव्याश्च हृदये कः प्रसङ्गः प्रवर्तते यदि शङ्काकुलास्तत्र दण्डनाथा पुरोगमाः मन्त्रिणीं पुरदकृत्वा प्रचेलुर्ललितां प्रति शक्तिचक्रचमूनाथाः सर्वास्ताः पूजिता द्रुतम् व्यतीतायां विभावर्यां रथेन्द्रं पर्यवारयन् अवरुह्य स्वयानाभ्यां मन्त्रिणी दण्डनायिके अधस्तात् सैन्यमावेश्य तदारुरुहदूरथं क्रमेण नवपर्वाणि सत्तत्सर्वगधैश्चक्रिचक्रैः सम्यग् निवेदितैः अभजेतां महाराज्ञीमन्त्रिणी दण्डनायिके ते व्यजिज्ञपदां देव्या अष्टाङ्गस्पृष्टभूतले महाप्रमादसमभूदि न श्रुतमम्बिके कूडयुद्धप्रकारेण दैत्यैरपकृतं कलैः स सदुरात्मा दुराचारः प्रकाशः समारात्रः सन् कुहकव्यवहारेण जयसिद्धिं तु काक्षति दैवान्नस्वामिनि गात्रे दुष्टानामरद्रुहाम् शराधिकपरामर्शो न जातस्ते न जीवति एकावलम्बनं कृत्वा महाराज्ञी भवत्पदं वयं सर्वाहि हि जीवामः साधयामः समीहितम् अदोऽस्माभिप्रकर्तव्यं श्रीमत्यङ्गस्य रक्षणम् मायाविनश्च दैत्येन्द्रास्तत्र मन्त्रो विधीयताम् आपत्कालेषु जेतव्या भण्डाद्या दानबाधमाः कूढयुद्धं न कुर्वन्ति न तदा च महेन्द्रशैलस्य कार्यं दक्षिणदेशतः शिबिरं बहुविस्तारं योजनानां शदावधि वह्निप्राकारवलयं रक्षणार्थं विधीयतां अस्मत्सेनानिवेशस्य द्विषां दर्पशमाय च सदयोजनमात्रास्तु मध्यते श्यः वह्निप्राकारा चक्रस्य द्वारं दक्षिणतो भवेत् यतो दक्षिणदेशस्थं शून्यकं विद्विषां पुरं द्वारे च बहवः कल्प्याः परिवारा उदायुधाः निर्गच्छतां प्रविशतां जनानामुपरोधकाः अनालस्या अनिद्राश्च विधेया सततोद्यथाः एवं च सति दुष्टानां कूढयुद्धं चिकीर्षितम् मध्यरात्रिशु च अशक्यमेव भवदि प्रौढमाक्रमणं हठात् नो चेत् दुराशया दैत्या बहु माया परिग्रहाः पश्यतो हरवत्सर्वं विलुठन्ति महद्बलं मन्त्रिण्या दण्डनाधाया इदि श्रुत्वा वचस्तदा शुचिदन्तरुचा मुक्ता वहन्ती ललिता ब्रवीत् भवदीनामयं मन्त्रश्चारुबुद्ध्या विचारितः अयं कुशलधीमार्गो नीतिरेषा सनातनी स्वचक्रस्य पुरोरक्षां विधाय दृढसाधनैः पर चक्राक्रम कार्यो जिगीर्षदीर्माजन युक्त मंत्रिणी दंडनाघेसा ललितेश्वरी मलिनी काम आहूये दुवाच वत्स्यम बनिश्वाला मैति त्वया विधीयतां रक्षा बलस्यास्य महीयसः शतयोचनविस्तारं परिवृत्य महीतलं त्रिंशद्योचनमुन्नद्धं ज्वालाकारत्वमाव्रज द्वारयोचनमात्रं तु मुक्त्वान्यत्र ज्वलतनुः वह्निज्वालात्वमापन्ना संरक्ष सकलं बलम् इत्युक्त्वा मन्त्रिणी दण्डनाथे ललितेश्वरी महेन्द्रोत्तरभूभागं चलितुं चक्र उद्यमम् नित्या नित्या सा च नित्यामयी ज्वलज्ज्वालामया कृतिः चतुर्दशीतिथिमयी तथेतिप्रणनामतां तयैव पूर्वनिर्दिष्टं महेन्द्रोत्तरभूतलं कुण्डलीकृत्य जज्ज्वालशालरूपेण सा पुनः नभो वलय जम्बालज्ज्वालामालामया कृतिः बभा स्येद्दण्डनाधाया मन्त्रिनाथ चमूरपि अन्यासामपि शक्रीनां महदीनां महद्बलं विशङ्कडोदरं सालं प्रविवेश गदक्लमा राजचक्ररथेन्द्रं तु मध्ये संस्थाप्य दण्डिनी वामपक्षे रथं स्वीयं दक्षिणे श्यामलारथम् पश्चाद्भागे सम्पदेशीं पुरस्ताश्च हयासनां एवं संवेश्य परितश्चक्रराजरथस्य च द्वारे निवेशयामास विंशत्यक्षौहिणीयुधां ज्वलदण्डायुधोदग्रां स्तम्भिनीं नाम देवता या देवी दण्डनाथाया विघ्नदेवीति विश्रुता एवं सुरक्षितं कृत्वा शिबिरं योतृणी तथा पोषण्युदित भूयिष्ठे पुनर्युद्धमुपाश्रयद कृत्वा किल किलारावं तदशक्तिमहाचमूः अग्निप्राकारकद्वारान्निर्जगां महारवा युद्धं सुरक्षितं श्रुत्वा ललिताशिबिरोदरं भूयः संज्वरमापन्नः प्रचण्डो भण्डदानवः मन्त्रयित्वा पुनस्तत्र कुडिलाक्षपुरोगमैः विषङ्गेण विशुक्रेणा सममात्मसुतैरपि ये कौखस्य प्रसारेण युद्धं कर्तुं महाबलः चतुर्बाहुमुखान् पुत्रां चतुर्जलधिसन्निभान् चतुरान्युद्धकृत्येषु समाहूयस दानवः प्रेषयामासयुद्धाय भण्डश्चण्डक्रुधाज्ज्वलन् त्रिंशत्सङ्ख्याश्च तत्पुत्रा महाकाया महाबलाः तेषां नामानि वक्ष्यामि समाकर्णय कुम्भज चतुर्बाहुश्चकोराक्षस्तृतीयस्तु चतुश्शिराः वज्रघोषश्चोर्ध्वकेशो महाकायो महाहनुः मखशत्रुर्मखस्कन्धी महा महा सिंहकोषशिरालकः लडुन्नः पट्टसेनश्च पुराजित्पूर्वमारकः स्वर्गशत्रुस्वर्गबलो दुर्गाख्यस्वर्गकण्टकः अधिमायो बृहन्माय उपमायश्च वीर्यवान् इत्येते दुर्मदाः पुत्रा भण्डदैत्यस्य दुर्धियः पितुः सदृशदौर्वीर्याः पितुस्सदृशविग्रहाः आगत्य भण्टचरणावभ्यवन्तदभक्तितः तानुद्वीक्ष्य प्रसन्नाभ्यां लोचनाभ्यां स दानवः स गौरवमिदं वाक्यं बभाष्ये कुलघातकः भोभो मदीयास्तनया भवतां कस्समो भुवि भवतामेव सत्येन जितं विश्वं मयापुरा पुरा शक्रस्याग्नेर्यमस्यापि निवृत्तेः पाशिनस्तथा कचेषु कर्षणं कोपात् कृतं युष्माभिराहवे अस्त्राण्यपि च शस्त्राणि जानीथ निखिलान्यपि जाग्रत्स्वेव ही युष्मासु कुलभ्रंशोऽयमागतः मायाविनी दुललिता काचित् स्त्री युद्धदुर्मदा बहुभिः स्वसमानाभिस्त्रीभिर्युक्ता हिनस्ति नः तदेनां समरे वश्यमात्मवश्यां विधास्यथ जीव्राह ग्राह्यार्ज्वलतायुय प्रकोपन्धन्युष्माने संेशमचि तथाप्य क्रम इमेक सखध्व शौर्यीतिपर्य इत्युक्त्वा भण्डदैत्येन्द्रस्तान् प्रहैषीद्रणं प्रति द्विशतं चाक्षौहिणीनां तत्सहायतया हिनोत् द्विशक्त्याक्षौहिणीसेना मुख्यस्य तिलकायिता बद्ध भ्रुकुडयशस्त्रपाणयो निर्ययुर्गृहाद निर्गमे भण्डपुत्राणां भूः प्रकम्पमलम्बद उत्पाता विविधा जाता वित्रस्तं चाफवज्जगद तान् कुमारान् महासत्वां लाज वर्षैरवा वीथीषु यानैश्चलितान् पौरवृद्धपुरन्द्रयः बन्धिनो मागधाश्चैव कुमाराणां स्तुतिं व्यधुः मङ्गलारार्तिकं चक्रुर्द्वारे द्वारे पुराङ्गनाः विद्यमाने वा वसुधा कृष्यमाणमिवाम्बरम् आसी तरषा विने घूर्णमान इवाव दिशिणी से गृही क्रोधोद्य भ्रुगु क्रूर वदना पुरात शक्ति सैनिया सर्वाणी भक्षा क्षणार्द्रणे तेषामायुधचक्राणि चूर्णयामश्चितैः शरैः अग्निप्राकारवलयं शमयामश्चरं हसा दुर्विदग्धां तां बन्दीकुर्मश्च सर्वरम् इत्यन्योन्यम् प्रवल्गन्धो वीरभाषणघोषणैः आस्वेदुरग्निप्राकारसमीपं भण्डसूनवः यौवनेन मदेनान्धा भूयसा रुद्धधृष्टयः भ्रुकुडीकुडिलाश्चकृसिंहनादं महात्तरम् उत्पाद विदीर्णमिव तेनासीद्ब्रह्माण्डचण्डिमस्पृशा उत्पादवारिधोत्सृष्टखोरनर्घातरं हसाननुभूतस्य महाशब्दस्य डम्बरः क्षोभयामास शक्रीणां श्रवांसि च मनांसि च आगत ते कल कल चक्रु साध स्वसैनिक विविधाुध वी संपमूर्चद चुर्बाखा भूवा भंड दैत्यकुमरकान् आकतान्युदृत्याय बालाकूहलम दधे कुमारी ललिता कुमता निकटवासी समस्त श्रीचक्राण पूज्य विक्रमशालिनी ललिता सदृशाकारा सदृशे सदा नव वर्षे सर्विद्या महाकनी बालारुणतनुश्रोणी शोणवर्णवपुर्लता वा महाराज्ञीपादपीठे नित्यमाहिदसन्निधिः तस्या बहिश्चराः प्राणा विलोचनं तानागदान भण्डसुतान् संहरिष्यामि सत्वरम् इति निश्चित्य बालाम्बा महाराज्ञै व्यजिज्ञपद मादर्भण्डमहादैत्यसुनवो योद्धुमागताः तै समं योद्धुमिच्छामि कुमारित्वात् सकौतुका स्फुरन्दाविव मे बहु युद्धकण्डूयया क्रीडा ममैषा हन्तव्या न भवत्या निवारणैः अहं हि बालिका नित्यं क्रीडनेष्वनुरागिणी क्षणं रणक्रीडया च प्रीतिं चैतसा इति विज्ञापिता देवी प्रत्युवाच कुमारिकाम् वत्से त्वमधिमृद्वङ्गी नववर्षा नवक्रमा नवीनयुद्धशिक्षा च कुमारी त्वं ममैकिका त्वां विना क्षणमात्रं मे न प्रवर्तते ममोच्छ्वसिदमेवासि न त्वं महाहवम् दण्डिनीमन्त्रिणी चैव शक्तयोऽन्याश्च कोडिशः सन्त्येव समरे कर्तुं वत्सेत्वं त्वं किं प्रमाध्यसि यदि श्रीलितादेव्या निरुद्धापि कुमारिका कौमारकौतुकाविष्ठा पुनर्युद्धमयाचत सुदृढं निश्चयं दृष्ट्वा तस्या श्रीलिताम्बिका अनुज्ञां कृतवत्येव गाढमाश्लिष्य बाहुभिः स्वकीयकवचादेकमाच्छिद्य कवचं ददौ स्वायुधेभ्यश्चयुधानि वितीर्य विससर्जताम् कर्णीरथं महाराज्ञा चापदण्डात्समुद्धृतं हंसयुग्यशतैर्युक्तमारुरोः कुमारिका तस्यां रणे प्रवृतायां सर्वपर्वस्थदेवताः बद्धाञ्जलिपुडाने मुःप्रधृतासि परम्पराः ताभिप्रणम्यमाना सा चक्रराजरथोत्तमाद अवरुह्यतले सैन्यं वर्तमानमगाहद तामायान्तीमधो दृष्ट्वा कुमारीं कोपपाटलां मन्त्रिणी दण्डनाथे च सभये वाचमोचतुः किं भर्तृ युद्धे व्यवसायकृतस्त्वया अकाण्डे किं महाराज्ञा प्रेषितासि रणं प्रति तदेतदुचितं नैव वर्तमानेऽपि सैनिके त्वं मूर्तं जीवितमसि श्रीदेव्या बालिके यतः निवर्तस्वरणोत्साहात् प्रणामस्ते विधीयते यदि ताभ्यां प्रार्थितापि प्राचलदृढनिश्चया अत्यन्तं विस्मयाविष्ठे मन्त्रिणी दण्डनायिके सहैव तस्या रक्षार्थम् चेलदुःपार्श्वयोर्द्वयोः अधाग्निवरणद्वारा ताभ्यामनुगदा सती प्रभूतसेनायुक्ताभ्यां निर्जगाम कुमारिका सनाथशक्तिसेनानां सर्वासामनुगृह्णति प्रणामाञ्चलिजालानि कर्णीरथ कृतासना भण्डस्य तनयान् दुष्टा नभ्यद्रवधरिन्दमा तस्याः प्रादेशिकं सैन्यं कुमार्या न विद्यते सर्वं कि ललिता सैन्यं तत्सैन्यं समजायत तदप्रवहृदे युद्धमत्युद्धता पराक्रमम् ववर्ष शरजालानि दैत्येन्द्रेषु कुमारिका भण्डासुरकुमारैस्तैर्महाराज्ञी कुमारिका यद्युद्धमदनोत्तत्तुस्पृहणीयं सुरासुरैः अत्यन्तविस्मिता दैत्यकुमारा नववर्षिणीं कर्मीरथस्तामालोक्य किरन्दीं शरमण्डलम् क्षणे क्षणे बालिकया क्रियमाणं महारणं व्यजिज्ञपन्महाराज्ञै भ्रमन्ध्यः परिचारिकाः मन्त्रिणी दण्डनाथे च नतां विजहदूरणे प्रेक्षकत्वमनुप्राप्ते तृष्णीमेव बभूवधूः सर्वेषां दैत्यपुत्राणामेकरूपा कुमारिका प्रत्येकभिन्ना ददृशे बिम्बमालेव भास्वतः सायकैरग्निचूडालैस्तेषां मर्माणि भिन्दति रक्तोत्पलमिव क्रोध संरक्तं बिभ्रतीमुखम् आश्चर्य ब्रुवदो व्योमश्यं त्रृदिवक साधुवादुविधरम्रिणीदंडनाथ अर्च्यमानारणं चक्रे लघुहस्ताकुमारी काुद्ध दिवस समी सारणे प्रकाशयामस बल ललिता दुहिता निजम् अस्त्र प्रत्यस्त्रमोक्षेण तान् सर्वानपि भिन्दति नारायणास्त्रमोक्षेण महराज्ञी कुमारिका द्विशक्त्यक्षौहिणी सैन्यं भस्मसादकरोत्क्षणाद् अक्षौहिणीनां क्षयदः क्षण कोपमुपगता आकष्ट गुरुधनवानस्ते पतनेकलया तद कलकले जा दिवक सा युगपत्रिशद बाणा न सृजत्सा कुमार लाक्लवमाश्रित्य मुक्तैश्चन्द्रार्थसायकैः त्रिंशदा त्रिंशतो भण्डपुत्राणा सा हतं यदि भण्डस्य पुत्रेषु प्राप्तेषु यमसाधनम् अत्यन्तविस्मयाविष्टा वभृषुः पुष्पमभ्रगाः सा पुत्री महाराज्ञ्या विध्वंस्तासुरमैनिका मन्त्रिणी दण्डनाथाभ्या मालिङ्ग्यद भृशं मुदा तस्या पराक्रमोन्मेषै नृत्यं द्योज्य यदा शक्तयस्तु मूलं चक्रुः साधु वादैर्जगत्रयम् सर्वाच शक्ति सेना दंडनाथ पुस्सरादाश महाराज निवेदा निवेदी ललितांबिका पुत्री भुजानी श्रुवा प्रीति स समस्तमित तच्चक्रक्रीण तत्पराक्रमे अदृष्ट पूर्व विस्मय वशंगदम युद्ध श्री ब्रह्मांडे महापुराणे उत्तरभागे हयग्रीवागस्त संवाद ललिद्या भंडपुत्रवधो नाम षड्विंशोऽध्यायः ओम्